अथ पञ्चमः सर्गः हत्वा तुतम् भीमबलम् विराधम् राक्षसम् वने रतः सीताम् परिष्वज्य समाश्वास्य च वीर्यवान् अब्रवीत् रामो लक्ष्मणम् दीप्त तेजसम् कष्टम् वनमिदम् दुर्गम् न च स्मो वन तपोधनम् आश्रमम् शरभङ्गस्य राघवोऽभिजगामः तस्य देवप्रभावस्य तपसाभावितात्मनः समीपे शरभङ्गस्य ददर्श महदद्भुतम् विभ्राजमानम् वपुषा सूर्य वैश्वानरप्रभम् रथप्रवरमारूढमाकाशे विबुधानुगम् असंस्पृशन्तम् वसुधाम् ददर्श विबुधेश्वरम् सम्प्रभाभरणम् देवम् विरजोऽम्बरधारिणम् तद्विधैरेव बहुभिः पूज्यमानम् महात्मभिः हरितैर्वाजिभिर्युक्तमन्तरिक्षगतम् रथं ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् पाण्डुराभ्रघनप्रख्यम् चन्द्रमण्डलसन्निभम् अपश्यद्विमलम् चित्रमाल्योपशोभितम् चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने गृहीते वरलारीभ्याम् धूयमाने च मूर्धनी गन्धर्वामरसिद्धाश्च बहवः परमर्षयः अन्तरिक्षगतम् देवम् गीर्भिरग्र्याभिरैडयन् सह सम्भाषमाणे तु शरभङ्गेन वासवे दृष्ट्वा तत्र रामो लक्ष्मणमब्रवीत् रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम् अर्चिष्मन्तम् श्रियाजुष्टमद्भुतम् पश्य लक्ष्मणा प्रतपन्तमिवादित्यमन्तरिक्षगतम् रथम् ये हयाः पुराशक्रस्य न अन्तरिक्षगता दिव्यास्त इमे हरयो इमे च पुरुषव्याघ्रये दिशम् शतम् शतम् कुण्डलिनो युवानः खड्गपाणयः विस्तीर्णविपुलोरस्काः परिघायत बाहवः शोणाम् शुभसनाः सर्वे व्याघ्रा इव दुरासदाः पुरो देशेषु सर्वेषाम् हाराज्वलनसन्निभाः रूपम् बिभ्रति सौमित्रे पञ्चविंशति वार्षिकम् एतद्धि किल देवानाम् वयो भवति नित्यदा यथे मे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः इहैव सह मुहूर्तं तिष्ठलक्ष्मण यावज्जानाम्यहम् व्यक्तम् क एष द्युतिमान् तमे तमेव मुक्त्वा सौमित्रिमिहैव स्थीयतामिति अभिचक्रामकाकुत्स्थः शरभङ्गाश्रमम् प्रति समभिगच्छन्तम् प्रेक्ष्य रामम् शचीपतिः शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् इहोपयात्यसौ रामो यावन्माम् नाभिभाषते निष्ठाम् नयत तावत्तु ततो मा द्रष्टुमर्हति जितवन्तम् कृतार्थम् हि तदाहमचिरादिमम् कर्म ह्यनेन कर्तव्यम् महदन्यैः सुदुष्करम् अथ वज्रितमामन्त्र्यमानयित्वा च तापसम् रथेन नहाय हययुक्तेन ययौ दिवमरिन्दमः प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः अग्निहोत्रमुपासीनम् शरभङ्गमुपागमत् तस्य पादौ च सङ्गृह्य रामः च लक्ष्मणः निषेधस्तदनुज्ञाता लब्धवासा निमन्त्रिताः ततः शक्रोपयानम् तु पर्यपृच्छत राघवः शरभङ्गश्च तत्सर्वम् राघवाय न्यवेदयत् मामेश वरदो राम ब्रह्मलोकम् निनीशति जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः अहम् ज्ञात्वा न रव्याघ्रवर्तमानमदूरतः ब्रह्मलोकम् न प्रियातिथिम् त्वयाहम् पुरुषव्याघ्रधार्मिकेण महात्मना समागम्यगमिष्यामि त्रिदिवम् चावरम् परम् अक्षया नरशार्दूलजिता लोकामया शुभाः ब्राह्म्याश्च नाकपृष्ठ्याश्च एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ऋषिणाशरभङ्गेन राघवो वाक्यमब्रवीत् अहमेवाहरिष्यामि सर्वान् लोकान् महामुने आवासम् त्वहमिच्छामि प्रदिष्टमिह कानने राघवेणैव मुक्तस्तु शक्रतुल्यबलेन वै शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः इह राममहातेजास्तुतीक्ष्णो नाम धार्मिकः असत्यरण्ये नियतः श्रेयो विधास्यति सुतीक्ष्णमभिगच्छ त्वम् शुचौ देशे तपस्विनम् रमणीयेव नोद्देशे सते वासं विधास्यति इमाम् मन्दाकिनीम् राम प्रतिस्रोता मनोव्रजा नदीम् पुष्पोऽडुपवहान्ततस्तत्र गमिष्यसि एष पन्था न रव्याघ्रमुहूर्तम् पश्यता जीर्णान् त्वचमिवो ततोऽग्निंसमाधाय हुत्वा चाज्येन मन्त्रवत् शरभंगो महातेजाः प्रविवेशहुताशनम् तस्य रोमाणिकेषांश्च तदा वह्निर्महात्मनः जीर्णाम् त्वचम् तदस्थीनि यच्च मांसम् च शोणितम् उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत स लोकानाहिताग्नीना ऋषीणाम् च महात्मना देवानाम् च व्यतिक्रम्य यरोहता व्यरोहत स पुण्यकर्मा भुवने द्विजर्शभः पितामहंसानुचरम् ददर्शः पितामहश्चापि समीक्ष्यतम् द्विजम् नलम् शे श्रीमद्राणे वाक्यकांडे पंचम सर्ग